श्रीमद्भागवत महापुराण द्वाद स्कंध अथकाशोध्याय भगवान के अंग उपांग और आयुधों का रहस्य तथा विभिन्न सूर्यगणों का वर्णन सौनकुवाच अथे मम प्रेक्षा बहुवित्म समतंत्र भवान् भागवत तन्त्रिकापरिचर्यायां केवलस्य श्रियः पतेः अङ्गोपाङ्गायुधा कल्पं कल्पयन्ति यथा च यैः तन्नो ते क्रियायोगं बुभुस्सतां येन क्रिया ये नैपुण्यैन्मर्तु यायादमर्थ्यतां श्रुत्वाच नमस्कृत्य गुरुन्वक्षे विभूतिर्वैष्णवीरपि याः प्रोक्ता वेदतन्त्राभ्यामाचार्यै पद्मजातिभिः मायाद्यैनवभिस्तत्त्वयि स विकारमयो विराट् निर्मितो दृश्यते यत्र सचित्के भुवनत्रयम् एतद्वै पौरुषं रूपं भूपादौ दो शिरो नभ नाभि सूर्योक्षिणी ना कर्णो दिशा प्रभो प्रजापतिप्रजननम् अपालो मृत्युरीषितुः तद्बाहवलों बाहवो लोकपाला मनश्चन्द्रो भ्रुवौ यमः दजोत्तरोधरो लोभू दन्ताध्योत्नास्मयो भ्रमः रोमाळी भूरुहा भुम्नो मेघापुरुषमुषयाः यावानयं वै पुरुषो यावत्या संस्थयामितः तावान् सावपि महापुरुषो लोकसंस्थयां कौस्तुवद्यपदेशेन स्वात्मज्योतिर्विभर्त्यजः तत्प्रभाव्यापने साक्षा श्रीवस्य मृषा विभू समायाम्बलमालाख्यां नानागुणमहिन्मयीं दधन् वासछ्छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवेश्वरं विभृति साङ्ख्यं योगं च देवो मकरकुण्डले मौलिं पदं पारमेश्वं सर्वलोकाभयङ्करम् अव्याकृतमनन्ताख्यम् आसनं यदधिष्ठितः धर्मज्ञानादिभिर्युक्तं सत्त्वं पद्ममिहोच्यते ओजसहो बलोयुतं मुख्यतत्त्वं गदां दधद् अपां तत्त्वं दरवरं तेजस्तत्वं सुदर्शनं नभोनिभं नमस्तत्त्वम् असिं चर्मतमोमयं कालरूपं धनुषार्गं तथा कर्म मयोषिधिम् इन्द्रियालीसराहु आकुतीरस्य स्यन्दनं तन्मात्रान्यस्याभिव्यक्तिं मुद्रयार्थक्रियात्मतां मण्डलं देवयजनं दीक्षा संस्कार आत्मनः परिचर्या भगवत आत्मनो दुरितक्षयः भगवान् भगवन् भगवशब्दार्थं लीलाकमलमुध्वन् धर्मं यशश्च भगवां चामरव्यजने भजत आतपत्रं तु वैकुण्ठं द्विदधामाकुतोभयं त्रिवृन्देद सुपर्णाख्यो यज्ञं वहति पूरुषम् अनपायिनी भगवति श्री साक्षादात्मनोहरेहम् विश्वक्सेनत पार्षदाधिपः नन्दादयोस्तौ द्वास्तश्च स्थाश्च तेडीमाद्याहरेर्गुणः वासुदेव शङ्कर्षण प्रद्युम्न पुरुषः स्वयम् अनिरुद्ध इति ब्रह्मन् मृत्युव्योभिधीयते स विश्वतैज स प्राज्ञ स्तुरीज इति वृत्तिभिः अज्ञाने अर्थेन्द्रियाश्रयज्ञानैर्भगवान् परिभाव्यते अङ्गोपाङ्गायुधाकल्पैर्भगवान् तच्चतुष्टयं बिभर्ति स्म चतुर्मूर्तेर्भगवान् हरिरेश्वरः द्विज ऋषभस एष ब्रह्मयोनिस्वयं दृक् स्वमहिम परिपूर्णो मायया च स्वयैतत् सृजति हरति पातित्याङ्ख्ययानावृताक्षोः बृहृत इव निरुक्तस्तन् परैरात्मलभ्यः श्रीकृष्णकृष्णसखकृष्णं येष भावनिद्रु ग्राजन्यवंशदहनानपुवर्गवीर्य गोविन्दगोपवनिता व्रजभृत्यगीततिथस्रवश्रवणमङ्गल पाहि भृत्यान् या इदं कल्य उत्थाय महापुरुषलक्षणं तच्चित्तप्रयतो जप्त्वा ब्रह्मवेद गुहाशयम्